श्रीहर नम अत एक तबुवाच महीपतिस्त्वत तत्कर्म गर्ह्यम् विचिन्त्य आत्मकृतं सुधुर्मनाः अहोमयानी च मयार्यवत्कृतम् निरागसि ब्रह्मकणिघूटतेजसे ध्रुवं ततो मे कृतदेवनाद् धुरत्ययम् व्यसनं नाधिदीर्घाद् तधस्तु कामं ध्वगनिष् प्रथाय मे यथा न कुर्यां पुनरेव मद्धा अद्यैव राज्यं बलं रुद्धकोशं प्रकोपितब्रह्मकुलानलो मे दहत्वभद्रस्य पुनर्नमेऽभूत् पापीयसीधि द्विजदेव सुतोक्तो निरृतिः स साधु मेनेन प्रसक्तस्य विरक्तिकारणम् अतो विकाये मम मम् च लोकम् कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायमर्त्यैलसच्छ्री तुलसी विमेश्र कृष्णाङ्घ्रिरेण्यप्यधिकाम्बुनेत्रे पुनातिलोकानुभयत्र शेषान् कस्तां न सेवेतमरिष्यमाणः इति व्यवश्चित्य सभाण्टवेय प्रायो भवेशं प्रदिविष्णुवध्यां व्रतोमुत्तमस्तसङ्गः <tab> <tamas> -ta <sanggahan> तत्रो पुनाना पुना महानुभामुनयक्स् शिष्याः प्रायेण तीर्थाभिगमापदेशे स्वयं हि तीर्थानि पुनन्ति सन्तः अत्तिर्वसिष्ठशयनः शरद्वान् अरिष्ट नेभिर्भृकुरङ्गिराश्च परासरो घाति सुतातरामा उतत्य आर्ष्टिषेण भारत्वाजो गौतमः विप्पलादः मैत्रेय और्वकवक्ष कुम्भयो ने स्वय नो भगवान् अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च नानार्षेयप्रवरान् समेता नभ्यर्च ना राजा शिरशाववन्दे सुखोपविष्टेश्व भूय कृतप्रणाम स्वचिकीर्षितं यत् विज्ञापयामास विविक्तचेता उपस्थितोऽग्रे विगृहीतपाणिहे अहो वयं धन्यृपाणा महत्तमानुग्रहणीयशीलाः राज्ञाङ्कुलं ब्राह्मणपादशौचाद्दूरात् विसृष्टं बदगर्ह्यकर्म तस्यैव मेघस्य परावरेषो व्यासक्तचित्तस्य गृहेषु भीष्णं निर्वेतमूलो द्विजशापरूपो यत्र प्रसक्तो भयमासुधत्ते तं मोपयातं प्रतियं तु विप्रा गङ्गा च देवी धृतचित्तमीशे द्विजोपसृष्टगुहकस्तक्षगो वादः सत्वलं गायत विष्णुघाताः पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेशो मगत्सु यामुपयामि सृष्टिं ऐद्यस्तु सर्वत्र नमो इति स्म राजात्यवसाय युक्तप्राचीनमूलेषु कुशेषु धीरः उदङ्मुखो दक्षिणकुल आस्ते समुद्रपन्त्या स्वसुदन्यस्थभारः एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिविदेवसङ्घाः प्रसस्य भूमौ व्यकिरन् प्रसूनैर्मुधा मुहोर्धुन्दुमयश्च नेदुहो महर्ष्यो वैस्तमुभागताये प्रसस्य साद्वित्यनुभोमोधमानाः ऊषु प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् नवायितं राजशिवर्यचित्रं भवत्सु कृष्णं समनुव्रतेश एध्यासनं राजकिरीटजुष्टं सद्यो जुकुर्भगवत् पार्श्वमाः सर्वे वयं ताबिहा कलेवरं यावत सौ परं विरजस्कं विशोकं यास्यत्ययं भागवतः प्रधानः आश्रित्य तत् ऋषिगणवश्च परीक्षेत् म् मधुष्युत् गुरुशाव्यलीकम् आपशतैनान् अभिनन्द्य युक्तान् समागता सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे नेहातवामुत्रचकश्चनार्थ रुथे वरानुग्रहमात्मशीलं ततश्च वक्पृश्यमिमं विपृश्चे विश्रव्यभिप्रा इति कृत्यधाय सर्वात्मनां म्रियमाणैश्च कृत्यम् शुद्धम् च तत्रा भगवान् व्यासपुत्रो यत्रुश्चयाघाम् अडमानोऽनभेक्षः अलक्ष्यलिङ्गो निजलाबतुष्टो व्रतश्च बालैरवधूधवेशः तं द्व्यष्टवर्षं सुकुमारबाध करोरुबाग्ं स कपोलगात्रं सार्वायताक्षोन्न शुभ्रूवाननं कम्बुशुजातकण्ठं निकूढजत्रुं भृततुङ्कवक्षसम् आवर्तनाभिं बलिबल्कूदरं च दिकम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाह्वं सस्वमरोत्तमाभम् श्यामं सता भीश्यवयोऽङ्गलक्ष्म्यां स्त्रीणा मनोज्ञं रुचिरस्मि तेन प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस्तल्लक्षणाज्ञा अभिकूटवर्चसंविष्णुराधोदिदय आगता यदस्मै सपर्यां शिरसा झकार तधोनिवृत्ता ह्यबुधा स्त्रियोर्भगा महासनेशोपविवेशभूषितः स संवृतस्तत्र महान्महीयसा ब्रह्मऋषिराजऋषिदेवर्षिसङ्गैः व्यरोचदालं भगवान् यथेन्धुर् प्रहर्षधारानिकरैः परीतः प्रशान्तम् आसीनमकुण्ठमेतसं मुनिं नृपो भागवतोऽभ्युपेत्य प्रणम्य मूर्ध्ना वहितः सत्सेव्याक्षत्रबन्धवः कृपयातिथिरूपेण भवद्भ्यस्तीर्थकृताः येषां संस्मरणात् पुंसां सत्यशुद्धयन्ति वै गृहाः किं पुनर्दर्शनस्पर्श पादौ सौचासनादिभिः सान्निध्यात्ते महायोगिन् पादघानि महा महान्त्यभिः विष्णोरिवसुरेधराः अभिमे भगवान् प्रीतः कृष्णभाण्टुसुतप्रियः पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्थबान्धवः अन्यथा ते व्यक्तगतेर्दर्शनं न कथं ऋणाम् नितरां म्रियमाणानां संसिधस्य वनीयसः योगिनां परमं गुरं पुरुषस्येकयत्कार्यं म्रियमाणस्य सर्वथा यच्छोतव्यं नतो ज्यं यत्कर्तव्यं नृभिः प्रभो स्मर्तव्यं भजनीयं वा ब्रूहीयत्वा विपर्ययं नूनं बगवथो ब्रह्मन् गृहेक्षो गृहमेधिना लक्ष्यते ह्यवस्थानम् अविगोधोहनं क्वचित् सूतववाच उवाच एवम् सराज्ञाक्ष्लनक्षया गिरां प्रत्यभाषतधर्मज्ञो भगवान् पादरायणिः इति श्रीमद्भागवते महापुराणे वैसासिक्यामषादशसाहर्यां पारमहंस्यां संहितायां प्रथमस्कन्ते सुखागमनं नाम एकोनविंशोऽध्यायः इति प्रथमस्कन्थसमाप्त्वा हरिवों तस्तत् सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिकी जय